भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः सत्यवागर्कपर्णश्च प्रयुतश्चापि विश्रुतः भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी तथा चतुर्दशः कलिः नारदश्चैव षोडशः इत्येते देव गन्धर्वा अथ प्रभूतान्य कीर्तयिष्यामि भारत अनवद्याम् अनुम् वंशामसुराम् मार्गणप्रियाम् अरूपाम् सुभगाम् भासीमिति प्राधाव्यजायत सिद्धः पूर्णश्च बर्हिश्च पूर्णायुश्च महायशाः ब्रह्मचारीरतिगुणः सुपर्णश्चैव सप्तमः विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा इत्येते देव गन्धर्वाः प्राधेयाः परिकीर्तिताः इमम् त्वप्सरसाम् वंशम् विदितम् पुण्यलक्षणम् प्राधासूतमहाभागा देवी देवर्षितः पुरा अलम्बुषामिश्रकेशी विद्युत्पर्णातिलोत्तमा अरुणारक्षिता चैव तद्वन्मनोरमा केशिनीच सुबाहुश्च सुरता तथा